श्रीहरये नमः अथ द्वितीयोऽध्यायः श्रीशुक इति भागवतः स्पृष्टक्षत्रा प्रियाश्रयां प्रतिवक्तुं न चोत्सेके औत्कण्ठ्यात् स्मारिधेश्वरः यः पञ्चहाय नो मात्रा प्रातरासाय याचितः तन्नैश्चत्रसयन्यस्य सपर्याम्बालीलया सकतं कालेन जरसंगतः पृष्ठो वार्तां भूप्यात् भर्तु पाधावनुस्मरन् समूहूर्तमभूतूष्णे कृष्णाघ्रिसुधया वृशम् धीव्रेण भक्तियोगेन हिमग्नः साधु निर्वृतः पुलगोद्भिन्नसर्वाङ्को मुञ्चन्मीलदृशाशुचहान् पूर्णार्तो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः स नृलोकं पुनरागतः विमृज्जनेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन् उद्धव उवाच कृष्णद्युमणि निं लोचे गीर्णेषु अजगरेणः किं नु भ्रूयां गतश्रीषु गृहेष्वहं दुर्भगो बत लोकोऽयं यधवो नितरामपि ये संवसन्तो न विधो हरिं मीना इवोढुपम् इङ्गितज्ञा पुरुप्रौढा एका रामाश्च सर्वे भूतावासं अमं सथा देवस्य मायया स्पृष्टा ये यत् असधाश्रिताः प्रान्द्यते दीन तद्वाक्यै आत्मनि उक्तात्मनोहरो प्रदर्श्य तप्त तपसाम् अवितृप्तदृशां नृणाम् आधायान्तरधात्यस्तु स्वबिम्बं लोकलोचनं स्वयोगमाया फलं दर्श्य यथा विस्वापनं स्वयच्च सौभगर्ते परं पदं भूषणभूषणाङ्गं यद्धर्मसुनोर्भदराजसूये निरीशदृक् स्वस्त्ययनं त्रिलोकः कार्शन्येन साध्येकगतं विधादुः अर्वाक् श्रुतौ कौसलमित्यमन्यथा यस्यानुरागप्लुदः सरास लीलावलोकप्रतिलब्धमानाः व्रजस्त्रियो दृग्भिरनुप्रवर्त अभ्यर्त्यमानेशो अनुकम्पितात्मा परावरेसो महतं सयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निहे मां खेदयत्ये तदजस्य जन्म विडम्बनं यत् वसुधेवेः व्रजे च वासोरिभयातिव स्वयं पुराद्यवात्सीद्यतदन्तवीर्यः धुनोति चेत् स्मरतो ममेतत् यदा पादावभिवध्यपित्रोः तदाम्ब कंसान् उरुसङ्कीर्तानां प्रसीद तं नो कृत निष्कृतीनां विस्मर्तुमी सीतभुमान् विजिग्रन् यो विस्फुरत् भ्रूविटभयेन भूमे भारं कृतान्धेन तिरश्चहार दृष्ट्वा भवद्भिर्ननुराजसूये चैत्यस्य कृष्णं द्विशतोऽपि सिद्धि हे यां योगिनः संस्पृहयन्ति कस्थद्विरहं सहेत तथैव चाङ्गे नरलोकवीराय आघवे कृष्णमुकारविन्दम् नेत्रैः पिबन्तो नयनाभिरामम् पार्थास्त्रपूता पदमापुरस्य स्वयम् वसां याति त्रयस्त्रैधीश पराज्य लक्ष्म्याप्त समस्तकामः बलिं हरद्भिशिरलोकपालैः किरीटकोट्ये ढितबाधपीठः तत्तस्य कैकर्यमलं विक्लाभयत्यंगयदुग्रसेनं विक्लाभयत्यङ्गयदुग्रसेनं तिष्ठन्निषण्णं परमेष्टिधिष्ण्ये न्यबोधयद्दे अहो बकीयं स्तनकालकूटं जिहांसया अभाय यदभ्यसात्त्वी लेपे गतिं धात्रिवुचितां तदोन्यं कम्वा दयाळुं शरणं व्रजेम मन्ये सुरान् भागवतान्स्त्रयधीशे सम्भ्रममार्गाभिनिविष्टचित्तान् ये संयुगे च अंसे सुनाभायुतमापतन्तम् वसुदेवस्य देवाज्ञाम् जातो भोजेन्द्रबन्धने चिकीर्षु भगवानस्य समजेन अभियाचितः ततो नन्दव्रजम् इदः एकादश समास्तत्र कूढार्चिस्सफलोऽवसत् परितो वत्स भैर्वत्स्रांश्चारयन् व्यहरत् विभुः यमुनो पवने गूजत् विजिसङ्कुलिदाङ्ग्रिये कौमारीं दर्शयन् चेष्टां प्रेक्षणीयां व्रजौकसां रुदन्निबहसन्मुद्धबालसिंहावलोकनः स एव घोतनं लक्ष्म्यानिकेतं चितगोवृषम् चारयन् ननु कान् गोपान् रणेणु भोजराजेन मायिनकामरूपिणः लीलयाव्यनुधत्तां स्तान् बालक्रीटनकानि विपन्नान् विक्षपानेन निगृह्य भुजगाधिपम् उत्ताभ्य अभाय यत् काव्यतो अजाजयत् कोशवेन गोपराजं द्विजोत्तमै वित्तस्य चोरुभारस्य चिकीषन् सत्ययं विभुः वर्षधीन्द्रे व्रजकोपात् भक्तमानेति विह्वलहान् गोत्रलीलातभद्रेण त्रातो भद्रानुगृह्णातां शरत्सशिखरैर्मृष्टं मानयन् रजनीमुखं गायन् कलबधं रेम स्त्रीणां मण्डलमण्डनः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे पितर द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहाराज के जय